श्रीमद्भागवत् महापुराणं दशं स्कन्ध अथैकविंशोऽध्यायः वेणुगीर्शीशोकुवाच इत्थं सरस्वक्षजलं पद्माकरसुगन्धिनां न विषद्वायुना वातं षगोगोपालकोचितः कुसुमितवनराजे सुस्मिभृङ्गवद्विजकुलङ्घुष्ट सरसरिन्महिद्रम् मधुपतिरवग्राह्य चार्यङ्गास पशुपालबलस्तु कूजवेणुं तद्व्रज स्त्रियाश्रित्य वेणुगे तं स्मरोदयं काश्चित्परोक्षं कृष्णस्य स्वसखेभ्योन्वर्णयन् तद्वर्णयितुमारब्धा स्मरन्त कृष्णचेष्टितं नाशकं स्मरवेगेन विक्षिब्धमनसो निप दरहापीडं नटवरवपुकर्णयो कर्णिकारं बिभ्रजवासकनकपिशं वैजयन्तीं च मालां रद्धान्बेरो रध्रान्वेणोरधरसुधया पूरयन् गोपवृन्दै वृन्दारण्यं स्वपदरमणं प्राविसद्गीतकीर्तिम् इति वेलूरवं राजन् सर्वभूतमनोहरं श्रुत्वा व्रजस्त्रियसर्वा वर्णयन्त्योभिरेभिरे गोप्यौचुः अक्षण्वतां फलमिदं न परं विदामसख्य पशूननुं विवेशयतो वयस्यै वक्त्रं रजे सृतयोरनुवेलुजुष्टं जैर्वानिपीतमनुरक्तकटाक्षमोक्षम् चूतप्रवालबर्हस्तवकोत्पलाब्ज मालानुप्रेक्तपरिधानविचित्रवेषौ मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रङ्गे यथा नटवरौ क्वचगायमानौ गोप्य किमाचारदयं कुशलं स्मवेळो दावोदराधरसुधामपि गोपिकानाम् भुङ्क्ते स्वयं जदवशेषरसङ्घसिन्यो हि स्यत्वतो तरवो यथा याः सकिभुवो सखि वितनोति कीर्तिं यद्देवकी सुतपदाब्जून् पदाम्बोजलब्धलक्ष्मी गोविन्दवेणुमनुमत्तमयोरनित्यं प्रेक्षादिशान्वपरतान्यसमस्तसद्वम् धन्यात्मूढमतयोऽपि हरिण्ययेता ज्ञानन्दनन्दनमुपातविचित्रवेषम् आकर्णवेणुलितं सह कृष्णसाराः पूजां दधुर्विरचितां प्रलयावलोकैः कृष्णं निरीक्षवनितो स्वरूपशीलं श्रुत्वा तत् क्वलितवेणुविचित्रगीतम् देव्योऽभिमानगतय स्मरनुन्नसारा भ्रस्यन्तसूनकबरा मुमुहुर्विनिव्य गावश्च कृष्णमुखनिर्गतवेणुगीत पेयो समुच्चभितकर्णपुटे पिबन्त्य सा वासु तंस्तन्तनपयकमला स्मृतस्थो गोविन्दमात्मनिदिशा शुकला स्पृशन्त्य त्रायो बताम्बविहगामुनियो वनेऽस्मिन् कृष्णोक्षितं तदुरितं कलवेणुगीतम् आरुह्ययेन्द्रुमभुजान् रुचिरप्रवालान् शृण्वन्त मेलितदिशोभिगतान्यवाच नद्यस्तदा तदुपदार्य मुकुन्दगीतम् आवर्तलक्षितमनोभवभग्नवेगाः आलिङ्गनस्थ गितं मुर्मिभुजैर्मुरारे गृह्णन्ति पादयुगलं कमलोपहारा दृष्ट्वा तपे व्रजपशुं सह रामगोपै सञ्चारयन्तमनुवेणमुदीर्यन्तं प्रेमप्रविद्धबुदितकुसुमावलिभि सख्युर्व्यथा स्ववपुषाम्बुद आतपत्रम् पुरुणा पुलिन्दवृगाय पदाब्जराग श्रीकुङ्कुमेन दयितासनमण्डितेन तद्दर्शनस्मारुतं तद्दर्शनं स्मररुज त्रीण रूषितेन लिम्पन्तयाननकुचे सजहुः सदादिं हन्ताय हरिदासवर्यो यद् रामकृष्णचरणस्परसप्रमोद बानं तनोति स गोगणयोतयोर्यत पानीयसूयवसुकन्दरकन्दमूलये गागोपकैरनुवनं नयतोरुदार वेणुस्वनये कलपदये तनुभे सुसख्य अस्पन्दनं गतिमतां पलकस्तरूणाम् निर्योगपाशकृतलक्षणयोर्विचित्रम् एवंविधा भगवतो या वृन्दावनचारिणः वर्णयन्तो मिथो गोप्यक्रीडा तन्मयतां ययुः इति श्रीमद्भागवते महापुराणे पारमंसां सहितायां तसंस्कन्धे पूर्वार्धे रेणुगीतं नामैकविंशोऽध्यायः